हरि ओं मम देव सवितः प्रसुवजन्यं प्रसुवजन्यपतिं भगाय दिव्यो गन् द्रवः केतपुः केतन्नः पुना दुर्वाच्वाछन्दः स्वदतु तत्सविवरण्यं मृगोदेवस्य हरिमयी धियो विश्वानि देव सवितृदुरितानि प्रदासु आसु विभक्तार वामहे वसुवश्चित्रस्य राजसा सवितारन्य चक्षसं ब्रह्मणि ब्राह्मणं क्षत्राय राजन्यम्प्यन्तपे शूदरन्दमसे तरन्नारुकाय वीराणम् पाप्मने क्लीबमाक्रयाय अयुगुङ्कामाय पुरुमतिकृष्टाय मागधम् नृत्ताय सूतं गीताय श्रीरुकं धर्माय समाचरन् मनिष्ठायै विमलन् धर्माय रेभग् हसाय कारिमानन्दाय श्रीकं प्रमदे कुमारीपुत्रं मेधायै रथकारन्दैर्जाणं तपसे कौलालम्बायायै कर्मारज्ञरूपाय मणिकार शुभे वपग््याय इकारेत्थैदनुप्रकारं कर्मणि ज्याकारं जिष्टाय रज्जु सृजं मृत्यवे मृगयुमन्तकायष्मनिनम् नदीभ्यः पूर्वनिष्ठा वृक्षिकाभ्यो नैकादम्बुरुगव्याघ्राय दुर्मदङ्गन्धृ वाप्सरोभ्यो व्रात्यं प्रयुद्ध उन्मतृपदेव जनेभ्यो प्रतिपदमयेभ्यः किमभिर्जताय अकितमम् पिशाचेभ्यो विदलकारीम् जातु दानेभ्यः कण्टकीकारीम् सन्दयेजारङ्गेहायोपतिमार्त्यै परिवित्तम् निवृत्त्यै परिविधानमराध्या एदि विभुः पतिन्यवृत्तिपेशस्कारीसंज्ञानाय स्मरकारीम् प्रकामोऽध्याय णायानुधं बलायपदम् उत्सादेभ्यः भुजं भ्रमुदेवामधन्वाभ्यात् रामकुसुनाय नम धर्माय बधिरं पवित्राय भिगजम् प्रज्ञानाय नक्षत्रादर्श वा शिक्षायै प्रश्निदमुपशिक्षाय अभिप्रश्निदं मृजादायि प्रश्नविवाकम् अन्मेभ्योऽस्ति पञ्जवाय श्वपं पुष्टि विपल देरायलाशंकी लालाय सु कार्य गृहपुशेयसे विमा भाई दर्वाहारम प्रभायाग्नीम विष्णुपायाखिपताधिष्टाकाय परिवेषारे लोकाय पेशितालोकाय प्रकृिता सर्वेभ्यो लोकेभ्य उपसृक्तारमवर्तयोपमन्थितारं मेधा यवासः पुलपूनीयम् प्रतामाय रजयित्रियम् ऋतयेस्तेन हृदयं वैरहत्याय विशुदम् विविधयक्षरमु पदष्ट्र्यायानुक्षरम्बलायानुचरं भूम्ने परिसुगन्धम् प्रियाय प्रियवादिनमरिष्ट्या अश्वसादकुसर्गाय लोकाय वागदुगम् परिशिष्टाय नाकाय परिवेष्टारम्पं क्रोधाय निसरणोगाय चोक्तार शोकायाभिसृतारं क्षेमाय विमुक्तारमुत्कूलनिकूलभ्यस्तिष्ठीनां वपुखे मानसृतग्निशीलाय अञ्जलि कारीन् नृत्ये कोशकारीन् जमायासु जमाय जमसु मथर्वव्यो मतोकाग्नि संवत्सराय प्रजायिणीं परिवत्सरायभिजातामिधा वत्सरायातित्वनीं पर वत्सराय तिथगध्वीं वत्सराय विजराग्ं संवत्सराय जर पलिनीजिनसन्दग्नि साध्येभ्यश्चर्मं न सर्वभ्यो दैवस्थापनाभ्यो दाशम् वै सन्ताभ्यो वैन्दडाभ्याम् शुभलम् पाराय मार्गारमवानायके वृतम् दीर्तेभ्यः आन्दम् विगमेभ्यो मैनालगुस्वनेभ्यः पर्णकङ्गुवाभ्याः किरातंसाभ्यो जम्बकम् प्रपतेभ्यः किम्पूरुखम् ीवत्सायै पौलकसंवरणाय हिरण्यकारन्तुलायै वाणिजम् पश्चादोखाय ग्लाभिनं विश्वेभ्यो भूतेभ्यः श्रलम् भूत्यै जागरणमभूत्यै स्वपनमार्त्यै जनवादिनं अपगलभक् सदृ शराय प्रक्षिदम् अक्षराजाय गृहं कृतायाधिनवदरिषन्द्रेतायै कल्पिनन्वापुरायादिकल्पिनस्कन्धाय सुभास्ताणुं मृत्यवेगो वृक्षमन्तकाय गोघातम् क्षुरे जोगाम् विकृन्दन्तम् भिक्षपाण उपतिष्ठति दुःखकृताय चरकाचर्जम् प्रतिश्रुताय अर्तन लोकाय वकमन्ताय वौवादिनमहन्ताय मूकम् शब्दायाडम्बराघातं मासे वीणावाधं क्रोषाय तूणवल्म वनस्फुराय शङ्घर्मं वनाय वनपमन्यतोरण्याय दावपम्म धर्माय पुंश्चलुहसाय कारिञ्जादशेषा बल्याङ्मण्यङ्गणकमधिक्रोशखण्डान् मासे वीणावादम् पाणि नृतायानन्दाय तलवम् अग्नये पीवानं पृथिवीपीठसर्पिडं वायवे चण्डालमन्तरिक्षायु शनरति नन्दिवे खलति सूर्जाय रक्षन् नक्षत्रेभ्य किम्मिरं चन्द्रमसे किलासमन्ने शूलं विङ्गाक्ष रात्रे कृष्णं विङ्गाक्षं रूपाना लभतेति दीर्घालो शूद्रा अब्राह्मणास्ते प्राजापत्याः मागधः पुंश्चनीकितवः प्लीबो शूद्रा अब्राह्मणास्ते प्राजापत्याः इति त्रिंशत्तमः